पितृसूक्तम् स्वादुशगुं सदः पितरो वाक्यम् स्वादुषगं सदः पितरो वयोधा कृच्छ्रश्रुतः शक्रीवन्दो गभीराः चित्रसेना यिशु बला सदोवीरा सदो उरवो व्रादसाहा ब्राह्मणा स पिदरसोम्याः स शिवे नो द्यावापृथिवी अनेहसा पूषा न पादो दुरिदावृदावृधो रक्षामाकिर्न सुपर्णं वस्ते मृगो अस्या दन्दो गोभि सन्नद्धा पदति प्रसूता यत्र नर सं च विजद्रवन्दे तत्र अस्मभ्य स्वादुषगं सदः पिदर पिदर स्वादुषगं सद स्वादुषगं वयोधा स्वादुशगं सदः सगुंसदः पिदरो वयोधा वयोधा पिदरः पिदरो वयो कृच्छ्र श्रधकृच्रदो वयोधा पिदरः पिदरो वयो कृच्छ्र श्र वयोध कृच्छ्र वयोधा वयोध कृच्छ्रुदशक्रिवन्दशक्री वन्द कृच्छ्रुदो वयोधा वयोध कृच्छ्रुदश्रीवः वयोधा इति वयः धाः कृच्छ्रे श्रुतशक्रि वन्दश्यक्री वन्ध कृच्छ्रे चक्रि वन्दो गभीरा गभीरा शक्री वन्ध कृच्छ्रुध कृच्छ्रे श्रक्रि वन्दो गभीराः कृच्छ्रे च यदि कृच्छ रेदः शक्री वन्दो गभीरा गभीरा शक्री वन्दशक्रि वन्दो गभीराः शक्रि वन्द इति शक्री वन्दः गभीरा इति गभीराः चित्रसेना इशोबला इशुबलाश्चित्रसेनाश्चित्रसेना यशु बला आमृध्र अमृध्र यशु बलात्रिसेना यशु बला आमृधरा चित्रसेना यित्र सेना यशोबला आमृध्रा अमृध्रा यशोबला यशोबला आमृध्रा सदो वीरा सदो वीरा आमृध्रा यशोबला यशोबला अमृध्रा सदो वीराः यशोबला यतिशो बलाः अमृध्रा सदो वीरा सदो वीरा अमृध्रा अमृध्रा सदो वीरा उरव उरव सदो वीरा अमृध्रा अमृध्रा सदो वीरा उरवः सदो वीरा उरव उरव सदो वीरा सदो वीरा उरवो व्राद साः व्रादसाः उरव सदो वीरा सदो वीरा उरवो व्रादसाः सदो वीरा इति सदः वीराः उरवो व्रादसाः व्रादसाः उरव उरवो व्रादसाः ्रादसाः यदि व्रातसाहा ब्राह्मणा सः पिदरः पिदरो ब्राह्मणा सो ब्राह्मणा स पिदर सौम्या सः पिदर सौम्या सोम्या स पिदर पिदर सोम्या स शिवे शिवे सौम्या सिदर पिदर सौम्या स शिवे सोम्या स सौम्या स सौम्या स शिवे नः शिवे नो न शिवे शिवे नोद्या वा पृथिवीद्या वा पृथिवी न शिवे शिवे नो द्या वा पृथिवी शिवे इति शिवे नोद्या वा पृथिवी नो नो द्या वा पृथिवी अनेहसा नेहसाद्या वा पृथिवी नो नो द्या वा पृथिवी अनेखसा द्यावा पृथिवी अनेह सा नेह सा द्या वा पृथिवी द्या वा पृथिवी अनेखसा द्यावा पृथिवी इति द्यावा पृथिवी अनेहस्येत्यनेहसा पूषणो नः पूषा पूषा नः पादुपादु नः पूषा पूषा नः पादु नः पादुपादुनो नः पादु दुरिताद्दुरितात्पादुनो नः पादु दुरिताद पादु दुरिदात् दुरिदात् पादुपादु रक्ष रक्षर्ता वृधो दुरिदा दुरिदा दृदा वृधो रक्ष दुरिदा दिदिदुः यिदाद रुदा वृधो रक्ष रक्षर्ता वृध रुदा वृद्धो रक्ष मा किर्मागी रक्षर्ता वृध ऋदा रक्ष माकीः ऋता वृद इत्यरुद वृधः रक्ष मा किर्मा की रक्ष रक्ष माकीर्नो नो मा सोकशगं सो नो मा गर् मागेर्नो अकशगं सः नो न स ईशते सदा कशगं नो न स ईशत अकशगुं स ईषदेशदा सोक शगुं स ईषदः अकशगुं स इत्यख शगुं सः सुपर्णगम् सुपर्णवस्ते मृगो मृगोवस्ते सुपर्नगं सुपर्नवस्ते मृगः सुपर्णमिदिषु पर्णम् वस्ते मृगो मृगोवस्ते वस्ते मृगो अस्या अस्या मृगो वस्ते वस्ते मृगो अस्याः मृगो अस्या अस्य मृगो मृगो अस्य दन्तो दन्तो अस्य मृगो मृगो अस्या दन्तः अस्य दन्तो दन्तो अस्या अस्या दन्तो गोभिर्गोभिर्दन्तो अस्या अस्य दन्तो गोभिः दन्तो गोभिर्गोभिर् दन्दो दन्दो गोभिस्सन्नद्धा सन्नद्धा गोभिर्दन्तो दन्दो गोभिस्सन्नद्ध गोभिस्सन्नद्ध सन्नद्धा गोभिर्गोभिस्सन्नद्ध पतति पतति सन्नद्ध सन्नद्धा पतति सन्नद्ध पतति पदति सन्नद्धा सन्नद्धा पदति प्रसूता प्रसूदा सन्नद्धा सन्नद्धा पदति प्रसूता सन्नद्धे दि पददि प्रसूदा प्रसूदा पददि पददि प्रसूता प्रसूते दिप्रसूता यत्रा नरो नरो यत्रा यत्र नरसगं सन्नरो यत्र यत्रा नरसं नरसगं सन्नरो नरसञ्च च सन्नरो नरसञ्च सञ्च चषगं सञ्च विविचसगं सञ्च वि चविवि च विच च विच चविच विच च विविवि च द्रवं दि द्रवन्ति च विवि द्रवन्ति च द्रवन्ति च द्रवन्ति तत्र तत्र द्रवन्ति च द्रवन्ति तत्र द्रवन्ति तत्र तत्र द्रवन्ति द्रवन्ति तत्रास्मभ्यमस्मभ्यम् तत्र द्रवन्ति द्रवन्ति तत्र अस्मभ्यम् तत्रास्मभ्यमस्मभ्यम् तत्र तत्रास्मभ्यमिषव इषव अस्मभ्यम् तत्र तत्र अस्मभ्य मिषवः अस्मभ्यमिषव इषवो अस्मभ्यमस्मभ्य मिषवः शर्म शर्मेषवो अस्मभ्यमस्मभ्य मिषव शर्म अस्मभ्यमित्यस्मभ्यम् शर्मेशव एषवशर्म यज्ञं सन् यगुं चर्मेषव इषव शर्मयगुं सन् शर्मयगुं सन् यगुं सन् चर्म शर्म यगुं सन् यगुं सन्निधि यगुं सन्